मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं सिक्स्टिफैव् द्रव्यप्रयत्नो नाम पञ्चषष्टितमोऽध्यायः श्रीगणेशाय नमः गृत्समद उवाच ततः सदैत्यराजोऽपि स्वसेनासंवृतो ययौ रथारूढो महातेजा शस्त्रास्त्राय संयुधो बभौ दुर्मधिर्गणपं दृष्ट्वा चुकोपादितराम् खलः आज्ञापय स्वसेनां वैदेवानां कदनाय तदो दैत्याश्च देवास्ते युयुद्धुश्चादिदारुणम् असंबग्धम् महाक्रोधा जग्मुः सप्तज देवसेना तदो भग्ना पलाय भयभीदा तद क्रोधाद्युयुधे शङ्करो भृशं तदो दुर्मदिना नात्रकृतं युद्धं महाद्भुतं मूर्च्छिदास्पदिता केचिद्देवेशा खण्डिता शरैः शम्भुं विष्णुं च देवेन्द्रं सर्वान्यान् सुमूर्छितान् तान् दृष्ट्वा गणराजस्तु क्रोधयुक्तो बभूवः मूषकारूढ एव असौ सङ्ग्रामाय समाययौ तं दृष्ट्वा दुर्मदिप्राहक्रोधारुणविलोचनः दुर्मदिरुवाच किमर्थं मूर्खभावेन युद्धाय समुपागतः बाणेनैकेन हन्मि त्वां पश्य मे ब्रह्माण्डं निर्जितं येन तेन युद्धं करिष्यसि अज्ञानेनावृदो नूनं गच्छ त्वां वदन्तमुग्रं तं दैत्यस्यं दुर्मतिं प्रभुः जगाद हास्यसंयोक्तपधिपृष्ठे प्रतापवान् पुष्टिपदिरुवाच मा गर्वं कुरु दैत्ये दुर्मदे शृणु मे वचः त्वं कनिष्यामि नूनं च पश्य मे पौरुषं महद दुर्मदे दुर्मदिस्सहसाययौ दन्तं धृत्वा गणेशस्याकर्षयत्क्रोधसंयुतः महाबलेन दैत्येन वामदन्तः प्रपादितः भक्त्वा स धरणीपृष्ठे तं दन्तं गणपो ग्रहीदन्तेन शिरसि प्रोदो दुर्मस्स ममारः ततः पुष्टिपतिर्देवान् सावधानां चकारः तदो दैत्यगण सर्वे पलायन्दधिशो दश पादालं जग्मुरत्यन्दभयभीदा समन्तदः तदो देवेश्वरास्तत्र मुनयो हर्षसंयुताः अपु जयंस्तथा पुष्टिपदिं ते तुष्टुवुः देवर्षय ऊजुः जय देवगणाधीश जय विघ्नहराव्यय जय पुष्टिपदे ढुण्ढे जय सर्वे शसप्तम जयानन्दगुणाधार जय सिद्धिप्रदप्रभो जय योगेन योगात्मन् जय शान्तिप्रदायक जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर जय स्वानन्तपस्थायिन् जय वेदविदाम्बरा जय वेदान्तवादज्ञ जय वेदान्तकारणा जय बुद्धिधरप्राज्ञ जय सर्वामरप्रिया जय मायामये खेलिञ्जया व्यक्तगजानन जय लम्बोदरसाक्षिन् जय दुर्मदिनाशन जयैकदन्तहस्तं जयैकरदधारक जय योगिहृदिस्तत्वं जय ब्राह्मणपूजित जय कर्म तपोरूप जय ज्ञानप्रदायक जयामेय महाभाग जय पूर्णमनोरथ जयानन्दगणेशान जय पाशाङ्कुशप्रिय जय परशुधरत्वं वै जय पावनकारक जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय जय भक्तश विघ्नेश जय महोदर नमो नमस्ते गणनायकाय नमो नमस्ते सकलात्मकाय नमो नमस्ते भवमोचनाय नमो नमस्ते सुखप्रदाय यदि स्तुत्वा गणाधीशं प्रणेमुस्तं महामदे उद्धाय नृतुः सर्वे कर्षयुक्ता सुरक्षयः तेषां महोत्सवं दृष्ट्वा तान् जगादमः प्रभुः प्रसन्नात्मा पुष्टिपदिर्भक्तान् भक्तप्रियङ्करः पुष्टिपदिरुवाच भवत्कृतमिदं स्तोत्रं ह्यः पठिष्यति नित्यशः शोष्यदे सकलं तस्य जयरूपं भविष्यति पठनश्रवणादस्य सर्वं जयति मानवः अन्ते मदीयसायुज्यं प्राप्नोत्यत्र न संशयः एवमुक्त्वा दर्दधे सौपदिः पुष्ठेर्गणेश्वरः देवाश्च मुनय सर्वे विस्मिता अभवंस्तदा स्वे स्वेपदे च दे जग्मुर्यथा सुखरदाः पुरा तथा पुनः स्वलोकस्था मोदन्ते च तत्पराः स्वाचारमुनयश्चक्रुर्वर्णाश्रमरता जनाः बभूवुरभजं स्तम् ते स्वधर्मेण गजाननं शिवश्च शक्तिसंयुक्तस्तमेव हृदये स्थितम् अभजद्भावयुक्तश्च गणपत्यः प्रतापवान् मूर्तिं चक्रुर्गणेशस्य स्थापयामासुरादराद वैशाखपूर्णिमायां च भवत्तत्र महोत्सवः तत्र सिद्धिरनुप्राप्ता शिवेन ननुमानद चकृसिद्धाश्रमं नाम्ना क्षेत्रं देवर्षयः परं तत्रैव सिद्धिमापन्ना देवा ब्रह्मर्षयः सनकाद्या महात्मानो गाणेशास्ते भवंस्ततः अत्र देवर्णयिष्यहमिति ह शम्भुरादनम् अगस्त्यस्य च संवादयुक्तम् च ब्रह्मणा पुरा एकदा वनगो भूत्वागस्त्यस्तपसि संस्थितः लोपामुद्राजसेवायां रदा पत्नी तदा भवद राजपुत्रिमहाभागा पादिवृत्त्यपरायण सुकुमारा भवत्तत्र कर्षिता सेवनोत्सुका कर्मेण सकलम् व्याप्तम् वपुस्तस्या रजो शिरो जडायुधं वीक्ष्यतु तामुवाच वरं ब्रूहि दास्येकं सोवाच राजभोगेन युक्तं देहि मुने रुदुं ततः राजभोगार्थं द्रव्येप्सुश्च समागतः राजानं याजनार्थाय कियन् मानं धनं वद दास्यामि भावसंयुक्तस्तुभ्यं तत्तापसोत्तम राज्ञो वचनमाकर्ण्यो वाच तं मुनिसत्तमः व्ययाद्वरिदं यन्मे धनं देहि सुपुष्कलं तदो दिलीपो राजातं जगादव्ययमानकम् द्रव्यं मेस्ति महाभाग तस्मात्सङ्ख्यां वदस्व भो जगादमुनिशार्धूलस्ततस्थं विस्मयान्वितः न ग्रहीष्यामि ते द्रव्यं दरिद्रस्य न संशयः मया द्रव्यं वैगृहीतं चेन्नराधिप तदा सर्वे निपीडिताः अतस्त्वम् राजभिर्युक्तश्चलशीघ्रम् न मया सार्धम् महद्रव्यम् यत्र वै भवेत् ततो राजा च वृत्तान्तम् कथयामः सतं मुनिम् भवत्यपि देवानाम् निधनार्थाय कर्म मूलनिकृन्तनः अखिलं ब्राह्मणाधारं कर्म तेन हिनष्टि तद् इल्वलश्चाभियोगीन्द्रवरयुक्तप्रभावतः गत्वो धरेकामरूपो कामरूपो वादाप्याहूद एव सः तदा तेषां नखेनैव स्फोटयित्वा महोदरं निर्गत्य भवतीत्यहो अत त्वं गच्छ योगीन्द्रस्तम्भत्वा द्रव्यसञ्चयम् गृहाणास्माभिरत्यन्तं वादापिम् भ्रातृसंयुतम् दिलीपस्य वच हर्षयुक्तो महामुनिः राजभिर्ब्राह्मणैर्युक्तस्तत्र गन्तुम् मनोदधे ओं तत्सदिधि श्रीमदुराणोपनिषद्दी श्रीमद्दे महापुराणे द्वितीए खंडेकचरी पुष्टिपत्युपाख्या अगस्त्यस्य द्रव्य प्रयत्नो नाम पंचष्टितमोध्याय